नापति ओम्बोदावत् दशकम् बृन्दावनम् एकोदल् भवत्प्रभावा विदुराहि गोपास् तरुप्रभातादिगमत्रकोष्ठे तरुप्रभातादिगमत्रकोष्ठे अहेतुमुत्पादगणम् विशङ्क्य प्रयातुमन्यत्र मनो वितेनो तत्रोपनन्दाविदगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् इद प्रतीश्याम् विपिनम् मनोज्ञम् बृन्दावनम् नाम विराजतीति बृहत्त्वनम् तत् खलु नन्दमोख्या विदायकौष्ठेन गरिष्टयानानुगता विचेलो अनोमनोज्ञनिजीनुपाली कुरप्रणान्दान्तरतो वधूपि भवत् विनोदालपिताक्षराणि प्रपीयनाज्ञायत मार्गदैर्घ्यम् निरीक्षवृन्तावनमी अमोदता साद्वलशान्द्रलक्ष्म्या हरिन्मणि कुट्टितपुष्ठचोपम् नवाकनिर्व्यूटनिवासभेतेषु अवशेष गोपेषु सुकासितेषु वनश्चियम् गोबकिशोरपाली निमिश्रित पर्यवलोकतास्त्वम् अरालमार्गागत निर्मलापा मरालगूजाकृतनर्मलापाम् निरन्तरस्मेर सरोजवक्त्राम् कलिन्दकन्याम् समलोकयस्त्वम् मयूरकेकाशतलोभनीयम् मयूकमाला चपलम् मणीनाम् विरिञ्च लोगस्पृशमुच्च श्रृङ्गैर् गिरिञ्च गोवर्धनमैक्षतास्त्वम् समम् तदो गोपकुमारकैस्त्वम् समम् ततो यत्र वनान्तमाग ततस्ततस्ताम् कुडिलामपश्य कलिन्दजाम् राघवतीमिवैकाम् तदा समीरगे कादिबपाकिरोगा हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरे राम हरे राम राम राम, राम हरे हरे